हाचलनिवासिने नमः ॐ व्याहकल्पाय नमः ॐ व्याहदिबाहनजनकाय नमः क्षरदक्षिणपाधाय नमः ॐ वृक्षाणां प्रभवे नमः ॐ वृक्षैरावृतकायाय नमः ॐ वृक्षाणां पतये नमः ॐ वृक्षेसाय नमः ॐ वृक्षकेतवे नमः ॐ वीक्षिणकेभ्यो नमः ॐ वृक्षराय नमः सवर्णस्य शिवो देवतामोक्षार्थे विनियोग नमः ॐ सखुनिपिदुध्वजसन्तुताय नमः ॐ शक्ताय नमः ॐ शकुन्तवाहनसाराय नमः ॐ शक्तये नमः ॐ शक्ररूपाय नमः ॐ शक्तिपूज्याय नमः ॐ शक्तिबीजात्मकाय नमः ॐ शक्तिधाय नमः ॐ शक्तिमार्गपरायणाय नमः ॐ शक्तित्रयफलदाय नमः ॐ शक्तिनाथाय नमः ॐ शक्तियुजे नमः ॐ शक्रवृष्टिप्रसमनोन्मुखाय नमः ॐ शक्रामर्क्षकराय नमः ॐ शक्राभिवन्धिताय नमः ॐ शक्तिमतां श्रेष्ठाय नमः ॐ शक्तिमधात्मने नमः ॐ शक्तिधारणाय नमः ॐ साकल्याय नमः ख्यानाधाकलयपाषाण्डपूजितास्मभृथे नमः ॐ शाक्ताश्रमगताय नमः ॐ शाङ्करी नमः ॐ शांकरी हृदयेशाय नमः ॐ शिकाररूपाय नमः ॐ श्रीकाराय नमः ॐ श्रीकेलये नमः ॐ श्रीकण्ठाय नमः ॐ श्रीकराकाराय नमः ॐ श्रीकण्ठनाथाय नमः ॐ श्रीङ्कारशुधाब्दिश्रीधरुचये नमः ॐ श्रीकान्तकान्तनयनाश्चितपादपद्माय नमः ॐ श्रीकालहस्तिलिङ्ग्याभरणाय नमः ॐ शुक्राय नमः ॐ शुक्ररूपाय नमः ॐ शुक्रशोषिषे नमः ॐ शुक्रपूज्याय नमः ॐ शुक्रभोगिने नमः ॐ शुक्रमदहृदे नमः ॐ शुक्रभक्ष्णतत्पराय नमः शुक्लाय नमः ॐ शुक्लयज्ञोवीतिने नमः ॐ शुक्लवस्त्रपरिधानाय नमः ॐ शुक्लमाल्याम्भरधराय नमः ॐ शुक्लज्योतिषे नमः ॐ शुक्लभस्मावलिप्ताय नमः ॐ शुक्लाम्बरधराय नमः ॐ शुक्लकर्मरथाय नमः ॐ शुक्लधनवे नमः ॐ सुकाराय नमः ॐ सुकृताय नमः ॐ श्लोक्याय नमः ॐ श्लोकाय नमः ॐ शोकराय नमः ॐ शोग्ने नमः ॐ शोकनाशनाय नमः ॐ संकराय नमः ॐ संकानिरोधकाय नमः ॐ संकुकर्णाय नमः ॐ शिखाव नमः ॐ शिाग्रनिलयाय नमः ॐ खिने नमः ॐ शिखण्ने नमः ॐ सिखिवाहनजन्मभुवे नमः ॐ शिखरिकेतनाय नमः ॐ शिरीश्वराय नमः ॐ शिरीन्द्रधनुसोभिकराब्जाय नमः ॐ शिघण्टिवाहनो धीर्णवात्सल्याय नमः ॐ शिखराय नमः ॐ शिकिशारथये नमः ॐ शङ्काय नमः ॐ शङ्कप्रभाय नमः ॐ शङ्खपादाय नमः ॐ शङ्कप्रियाय नमः ॐ शङ्किने नमः ॐ शङ्कसुलधराय नमः ॐ शङ्घाय नमः ॐ श्रीगिरिमल्लिगार्जुनमहालिङ्गाय नमः ॐ शृङ्गारिणे नमः ॐ शृङ्गाररसमुल्लसदङ्गविलासाय नमः ॐ शृङ्गिणे नमः ॐ शृङ्गप्रियाय नमः ॐ श्रीगर्भाय नमः ॐ श्रीगणाय नमः ॐ श्रीग्रियाय नमः ॐ शीघ्रगाय नमः ॐ शीघ्रकारिणे नमः ॐ शीघ्रमिष्टफलदाय नमः ॐ सचीपतिस्तुताय नमः ॐ शचीसाभीष्टदायकाय नमः ॐ श्रीचन्द्रसूटाय सुचिप्रियाय नमः ॐ शचये नमः ॐ शचिस्मिताय नमः ॐ शचिवर्णाय नमः ॐ शचिश्रवसे नमः ॐ सिञ्जाडमणिमञ्जीरचरणाय नमः ॐ सिञ्जनीभूतभुजगनायकाय नमः ॐ सिञ्जनी कृतपन्नगेश्वराय नमः ॐ सिञ्जनी कृतवासुकये नमः ॐ सौण्डाय नमः ॐ सौण्डीर्यमण्डिताय नमः ॐ सोणाम्भोजसमाननाय नमः ॐ शोणवर्णजटाजूटाय नमः ॐ सधजिह्वाय नमः ॐ सदवेलाध्यायुधाय नमः ॐ सधग्नीपाशक्तिमते नमः ॐ सतमूर्तये नमः ॐ सतधन्वने नमः ॐ सतपत्राय तेषणाय नमः ॐ सतधृतये नमः ॐ सदघ्नसनिगङ्गिने नमः ॐ सथाननाय नमः ॐ सथावर्ताय नमः ॐ सतरूपविरूपाय नमः ॐ सतकेतवे नमः ॐ सतकृतये नमः ॐ सथानन्दाय नमः ॐ सद्रुजिते नमः ॐ सद्रुग्नाय नमः सत्रुतापनाय नमः ॐ सत्रुनिषूधनाय नमः ॐ शन्ताय नमः ॐ शन्तस्वान्ताय नमः ॐ शान्तरूपाय नमः ॐ सान्तमानसमाविताय नमः ॐ शन्तराघाय नमः ॐ शान्तसरश्चन्द्रनिभाय नमः ॐ शन्तमानसाय नमः ॐ शन्तात्मने नमः ॐ शन्तचि म्बुजचरीकाय नमः ॐ शान्तशाक्तिसंशयवर्जिताय नमः ॐ शान्तमूर्तये नमः ॐ शान्त्यै नमः ॐ शान्तिकलात्मकललाटिकाय नमः ॐ शान्त्यतात्मकऊर्ध्वातिकाय नमः ॐ शान्तात्मरूपिणे नमः ॐ शान्तिवर्धनाय नमः ॐ शान्त्यतीताय नमः ॐ शान्तिधाय नमः am um... ॐ शान्तिस्वरूपिणे नमः ॐ श्रितविबुधलोकाय नमः ॐ श्रुतिकण्ठाय नमः ॐ श्रितिकण्ठोर्ध्वरेतसे नमः ॐ श्रीतलशीलाय नमः ॐ सीतांशुमित्रदहननयनाय नमः ॐ सीतांशुशोभितकिरीटविराजमानाय नमः ॐ श्रुत्य नमः ॐ श्रुतिपादाय नमः ॐ श्रुतिशिस्थानन्दरादिष्ट य नमः ॐ श्रुतिसेव्याय नमः ॐ श्रुताय नमः ॐ श्रुतिपधैर्वाश्चाय नमः ॐ श्रुतिगीतकीर्तये नमः ॐ श्रुतिसाराय नमः ॐ श्रुतिपारगाय नमः ॐ श्रुतिज्ञानगम्याय नमः ॐ श्रुतिमते नमः ॐ श्रुतज्ञाय नमः ॐ श्रतये नमः ॐ श्रुतिचूटामणेपि चन्द्रचूटामणये नमः ॐ श्र प्रकाशाय नमः ॐ श्रुतिमार्गेशाय नमः ॐ श्रुतिसागराय नमः ॐ श्रुतिचक्षुषे नमः ॐ श्रुतिलिङ्गाय नमः ॐ श्रुतिप्रणवगम्याय नमः ॐ श्वेतपिङ्गलाय नमः ॐ श्वेतरक्षापराय नमः ॐ श्वेताय नमः ॐ श्वेताम्बरदराय नमः ॐ श्वेतमाल्यविभूषणाय नमः ॐ श्वेतद्वीपाय नमः ॐ श्वेताधपत्ररुचिराय नमः ॐ श्वेतचामरवीजिताय नमः ॐ श्वेदाश्वाय नमः ॐ श्वेतवाकनसख्यवते नमः ॐ श्वेतलोहिताय नमः ॐत्रे नमः ॐ स्तोत्रवर्धरसायनाय नमः ॐ श्रोधव्याय नमः ॐ शिदिलीकृतसंसारवन्दनाय नमः ॐ संदक्षिणपादनूपुराय नमः ॐ श्रीडाय नमः ॐ श्रीधराय नमः ॐ शुद्धविग्रहाय नमः ॐ शुद्धकेवलमिश्रादिपूजोपास्याय नमः ॐ शुद्धपाणये नमः ॐ शुद्धशासनाय नमः ॐ शुद्धगुणार्णवाय नमः ॐ शुद्धहृदयाय नमः ॐ शुद्धस्फटिकनिर्मलाय नमः ॐ शुद्रान्तरङ्गाय नमः ॐ शुद्धज्योतिस्वरूप य नमः ॐ शुद्धभावाय नमः ॐ शुद्धस्फटिकमालाढ्याय नमः ॐ शुद्धबुद्धये नमः ॐ शुद्धभूतस्वरूपाय नमः ॐ शुद्धमार्गप्रवर्तिने नमः ॐ शुद्धस्फटिकसङ्कसमूर्तये नमः ॐ शुद्धज्ञानिने नमः ॐ शुद्धस्फटिकोज्वलविग्रहाय नमः ॐ शुद्धचैतन्याय नमः ॐ शुद्धा जन्यात्मने नमः ॐ शुद्धानन्दाय नमः ॐ शुद्धाय नमः ॐ शनये नमः ॐ शनैश्चराय नमः ॐ श्रीनिकेनाय नमः ॐ श्रीनीलकण्ठाय नमः ॐ श्रीनिधये नमः चेदिने नमः ॐ श्रीनारदपरिप्रश्नसंश्चय चेदिने नमः ॐ श्रीनादादिस्वरूपिणे नमः ॐ श्रीनिवासाय नमः ॐ श्रीनाथादीश्वराय नमः ॐ सुनाशिराय नमः ॐ शून्याय नमः ॐ स्वपदिभ्यो नमः ॐ शापवर्जिताय नमः ॐ शापानुग्रहदाय नमः ॐ श्रीविष्टाय नमः ॐ श्रीपूजिताय नमः ॐ श्रीपतये नमः ॐ श्रीप्रदाय नमः ॐ श्रीपतिवन्द्यपादाय नमः ॐ श्रीपदाय नमः ॐ श्रीप्रददत्ताम्बुजस्रग्णे नमः ॐ श्रीद्धब्रह्मणे नमः ॐ श्रीसबरार्भकालालम्बुस्तोकसेकजुषे नमः ॐ सप्तसहाय नमः सब्दस्पर्कसस्वरूपाय नमः ॐ शब्दगोचराय नमः ॐ स्पदसर्परसघन्तसाधकाय नमः ॐ सब्दपतये नमः ॐ सब्दातिघाय नमः ॐ सब्दब्रह्मप्रतिष्ठिताय नमः ॐ सब्दातीताय नमः ॐ सब्दात्मकाय नमः ॐ शब्दब्रह्मैकपारगाय नमः िकास्याधिधायकाय नमः बररिणि कृन्तनाय नमः ॐ सम्बरान्तकवैरिणे नमः ॐ सम्भराय नमः ॐ श्रीबीजबसन्तुष्टाय नमः ॐ शीभाय नमः ॐ श्रीभावहाय नमः ॐ श्रीभप्रदाय नमः ॐ श्रीबेक्षणाय नमः ॐ श्रीबलक्षणाय नमः ॐ शीभाङ्गाय नमः ॐ शुभानन्दाय नमः ॐ शुभाक्षाय नमः ॐ शुभवधान्ताय नमः ॐ शुभाभीष्टप्रदाय नमः ॐ शुभङ्कराय नमः ॐ शुभलक्षणलक्षिताय नमः ॐ शुभनाम्ने नमः ॐ शुभसम्भदाम् धात्रे नमः ॐ शुभरूपाय नमः ॐ शुभ्राननाय नमः शुभ्राय नमः ॐ शुभ्रविग्रहाय नमः ॐ शुभ्राभ्रयोधद्रुते नमः ॐ स्वभ्यो नमः ॐ श्रीभरद्वाजदीक्षोत्तमधोरगुरवे नमः ॐ श्रीभ्याय नमः ॐ शोभनाय नमः ॐ शम्भवे नमः ॐ समरूपाय नमः ॐ समाय नमः ॐ समनदमनाय नमः ॐ समप्राप्याय नमः ॐ समधमविपुलवन्द्याय नमः ॐ श्रमणाय नमः ॐ समधनमूलगनाय नमः ॐ समित्तवृजिनः चराय नमः ॐ समेश्वराय नमः ॐ स्म्याघमौलये नमः ॐ स्म्याकशरधराय नमः ॐ श्यामकायाय नमः ॐ श्यामार्धदेहाय नमः ॐ श्यामा कृधार्धविग्रहाय नमः ॐ श्यामाय नमः ॐ सामित्राय नमः ॐ श्रीमते नमः ॐ श्रीमहेशाय नमः ॐ श्रीमयाय नमः ॐ श्रीमत्कैलासशिखरनिलयाय नमः ॐ श्रीमथाम्बराय नमः ॐ श्रीमद्दक्षिणकैलासपक्षपाताय नमः ॐ श्रीमत् वरगुणाराधयपादुकाय नमः ॐ श्रीमहादेवाय नमः ॐ श्रीमहेश्वराय नमः ॐ श्रीमन्त्रभाविताय नमः ॐ श्रीमद्दालास्य सुन्दराय नमः ॐ श्रीमनोभाविता कृतये नमः ॐ श्रीमत्कुण्टलीश्वरकुण्डलाय नमः ॐ सेमुषिप्रदाय नमः ॐ सेमुषि नमः ॐ श्रियावासिने नमः ॐ श्रीयन्त्रराजराजाय नमः ॐ श्रेयसे नमः ॐ सयानेभ्यो नमः ॐ सयानाय नमः ॐ श्रेयोनिदये नमः ॐ संयोरभिश्रवन्धाय नमः ॐ सरन्विसाकरप्रवालमन्दहासमञ्जुलादरप्रकाशभासमानवक्त्रामण्डन् श्रिये नमः ॐ शरणागदवत्सलाय नमः ॐ शरणागदीनार्थपरित्राणपरायणाय नमः ॐ शरत्पूर्णेन्दुसङ्काशाय नमः ॐ शरण्यशरणाय नमः ॐ शरभेश्वराय नमः ॐ शरत्कालप्रवर्तकाय नमः ॐ शरीरभूतभृते नमः ॐ शरीरस्थाय नमः ॐ शरीरत्रयरहितायापि सर्वज्ञाय नमः ॐ सर्वोत्तमागमयज्ञोपवीताय नमः ॐ सर्वरीकराय नमः ॐ सर्वरीहेतवे नमः ॐ सर्वागमसताचारमर्यादाय नमः ॐ सर्वाणि मनोधीश्वराय नमः ॐ शरणागदराजेन्द्राणशीलं नमः ॐ शरणागदकल्पकाय नमः ॐ शरणार्गधार्तिहर ॐ शरणान्विताय नमः ॐ शरणप्राणतत्पराय नमः ॐ शरश्चन्द्रघात्राय नमः ॐ सर्वदाय नमः ॐ शरत्कालनाशकाय नमः ॐ शरन्नाथाय नमः ॐ शरत्कालप्रवर्तकाय नमः ॐ शरणाय नमः ॐ शरण्याय नमः ॐ शरणागदरक्षणाय नमः ॐ सरभाय नमः ॐ सरस्वरिवायुधाय नमः ॐ सर्वसंकराय नमः ॐ सर्वलिङ्गाय नमः ॐ सर्वाय नमः ॐ शरीराणाशरीरयोगवियोगहहेतवे नमः ॐ शारदावल्लभाय नमः ॐ शारदाभ्रादिशुभ्र भ्राङ्गाय नमः ॐ शारदानायकाय नमः ॐ सार्ङ्गिणे नमः ॐ सार्दूलचर्मवसनाय नमः ॐ सार्दूलाजिनभृते नमः ॐ शिरोहारिणे नमः ॐ शिरःकफालरुद्राक्षमालिकाय नमः ॐ शिरोद्धृतसुरापगाय नमः ॐ शिरीषमृदुलाकारवामर्धाय नमः ॐ श्रीरामवरदायकाय नमः ॐ श्रीरामचन्द्रतत्त्वार्थदेहिकाय नमः ॐ श्रीरधुरासदाय नमः ॐ श्रीराय नमः ॐ सुरमण्डलमण्डिताय नमः ॐ सुरसेनाय नमः ॐ सुरग्रेशाय नमः ॐ सौरये नमः ॐ सौर्यभाजनाय नमः ॐ शिल्पाय नमः ॐ शिल्प वैचित्यविद्योताय नमः ॐ शिलाधनुधनिशिब्धराज्याय नमः ॐ शिलीमुखीकृतविधये नमः ॐ शिलाकठिनपापौघविदुराय नमः ॐ शिल्पिनां विश्वकर्मणे नमः ॐ श्रीलीलाकरपद्मनाभवरदाय नमः ॐ शूलपाणये नमः ॐ शूलभास्वत्कराय नमः ॐ शूलिने नमः ॐ शूलास्त्रास्त्राभिधारितान्तकसुरारादीन्द्रस्थलाय नमः ॐ शूलाय नमः ॐ शूलाध्यायुतसम्पन्नाय नमः ॐ शूलपाशाङ्गुशचापहस्ताय नमः ॐ शूलटङ्कवासदण्डपानये नमः ॐ शैलाय नमः ॐ शैलाधीशसुतासहायाय नमः शैलादिब्रह्मैकर्कणै स्तुताय नमः ॐ शैलराजजामात्रे नमः ॐ शैलराजसुता परिष्कृतचारुवामकलेबराय नमः ॐ शैलेन्द्रसुतापतये नमः ॐ श्रवणपुषोल्लासितोरगमस्तकमणिधीप्तिमृदुकपोलयुगाय नमः ॐ श्रविष्ठाय नमः ॐ श्रवणानन्दभैरवाय नमः ॐ शिवाय नमः ॐ शिवज्ञानरथाय नमः ॐ शिवतराय नमः ॐ शिवरस्यारहस्यज्ञप्रत्यज्ञाय नमः ॐ शिवालिङ्गिताय नमः ॐ शिवारम्भाय नमः शिवमन्द्रजपप्रियाय नमः ॐ शिवाजीवितोसाय नमः ॐ शिवाकान्ताय नमः ॐ शिवादितत्त्वमयाय नमः ॐ शिवानन्दयुधानन्दमुनिमुग्धिमुदे नमः ॐ शिधूधिसमाराध्याय नमः ॐ शिवाग्निप्रियाय नमः ॐ शिवागमज्ञकृद्मञ्चमध्यस्थाय नमः ॐ शिज्ञानपयोरासिसखाभाय नमः शिवशक्तिलतामूलसुगन्धाय नमः ॐ शिव तत्त्वार्कुलिकशेखराय नमः ॐ शिवलिङ्गार्चनाव्यग्रनामदोग्रे नमः ॐ शिवहृदयपधोजभ्रमराय नमः ॐ शिववासभुजङ्घालिगरुडाय नमः ॐ शिवमुण्डाभरणाय नमः ॐ शिवभस्मविलेपनाय नमः ॐ शिवमन्त्राय नमः शिवङ्कराय नमः ॐ शिवलिङ्गाय नमः ॐ शिवतत्त्वाय नमः ॐ शिवतनवे नमः ॐ शिवलक्षस्वरूपिणे नमः ॐ शिवसाधारव्यूर्ध्ववदनाय नमः ॐ शिवात्मभुव्यभिव्यगधतिनेशाय नमः ॐ शिवाधाम्बत्यदोरुकरुणाय नमः ॐ शिवात्मकाय नमः ॐ शिवानाधाय नमः ॐ शिवासमेताय नमः ॐ शिवाराध्याय नमः ॐ शिवर्धनाय नमः ॐ श्री वैद्यनाथाय नमः ॐ श्रीवल्लभाय नमः ॐ श्रीवधूनाथबाणाय नमः ॐ श्रीविद्याचक्ररूपिणे नमः ॐ श्री विद्यानामरूपाय नमः ॐ श्रीविद्याभेदरूपिणे नमः ॐ श्री वामदेवाय नमः ॐ श्रीविष्णुसर्वपूज्यत्ववरदाय नमः ॐ श्रीवल्लभशिवारम्भाय नमः ॐ श्रीविभावनाय नमः ॐ श्रीविश्वनाथाय नमः ॐ शैवलीलाय नमः ॐ शैवानां शिवरूपिणे नमः ॐ शिवं करनिजानन्दसम्पूर्णाय नमः ॐ सशधरशेखराय नमः ॐ शशाङ्कशेखराय नमः ॐ शशाङ्कार्धमौलये नमः ॐ सशाङ्काय नमः ॐ शशिकोटिकान्तिज्वालाय नमः ॐ शशिकण्ठशेखराय नमः ॐ शशिकलाभास्वत्तिरीटज्वालाय नमः शि शिखण्डिने नमः ॐ शशिप्रियाय नमः ॐ शशिबिन्दवे नमः ॐ सशिखण्डमौळये नमः ॐ शशि नमः ॐ शशिखण्डमण्डनाय नमः ॐ श्मशानवासिने नमः ॐ श्मशाननिलयाय नमः ॐ श्मशानय नमः ॐ श्मशानरतिनि त्याय नमः ॐ श्श्रुकर्षणाय नमः ॐ शश्वत् नमः ॐ शश्वत्प्रसन्नवदनाय नमः ॐ सशाङ्काङ्कितशेखराय नमः ॐ शाताय नमः ॐ शाताकाराय नमः ॐ शाश्वतैश्वर्य निभव नमः ॐ शाश्वतनिजभासाय नमः ॐ शाश्वतैश्वर्याय नमः ॐ शाश्वतैश्वर्यविभवाय नमः ॐ शाश्वतस्थानवासिने नमः ॐ शाश्वतीकालयाय नमः ॐ शाश्वतधर्मगोप्त्रे नमः ॐ शाश्वतिकाकाराय नमः ॐ शाश्वतैश्वर्यबन्धुराय नमः ॐ शिरात्मकाय नमः ॐ शिराय नमः ॐ सिशवे नमः ॐ श्री श्रीरांशुकरोल्लासिकिरीटाय नमः ॐ श्री श्रीरांशुकलाधराय नमः ॐ शिशुपालविपक्षेत्राय नमः ॐ शिशुद्वातिनिर्मुक्ताय नमः ॐ श्रीशाय नमः ॐ श्रीशैलपतये नमः ॐ श्रीशैलमल्लिकार्जुनाय नमः ॐ श्रीशैलवासाय नमः ॐ शैसिर्तुप्रवर्तकाय नमः ॐ शभ्याय नमः ॐ सूक्ष्य नमः ॐ शिष्टदाय नमः ॐ शिष्ठाय नमः ॐ शिष्टाराध्याय नमः ॐ शिष्टाचारप्रदर्शकाय नमः ॐ शिष्टपोषणतत्पराय नमः ॐ शिष्टाभिलक्ष्याय नमः ॐ शिष्टाचारप्रियाय नमः ॐ शिष्टपूज्याय नमः ॐ शिष्यान्तरनिवासाय नमः ॐ शिष्यनामकज्ञात्रात् ॐ शेष य नमः ॐ शेषवासुकी संसेव्याय नमः ॐ शेषदेवाधिपुरुषाय नमः ॐ शेष्यशेषकलाश्रयाय नमः ॐ शेषसंस्थिताय नमः ॐ श्रेष्ठाय नमः ॐ शस्त्राय नमः ॐ शस्त्रहारिणे नमः ॐ शस्त्रभृथां रामाय नमः ॐ स्वसथे नमः ॐ शास्त्राय नमः ॐ शास्त्रे नमः ॐ शास्त्र कराय नमः ॐ शास्त्रवित्तमाय नमः ॐ शास्त्रनेत्राय नमः ॐ शास्त्रसंवेद्याय नमः ॐ शास्त्रतत्त्वज्ञाय नमः ॐ श्रीसौम्यलक्षणाय नमः ॐ श्रीहालास्यनिवासिने नमः ॐ साक्षरवामभाघवे नमः ॐ शिशितधानवाय नमः शिता किल कामादिघातकाय नमः ॐ शिशितान्धकथैतेयविक्रमाय नमः ॐ शकारस्य सूर्यो देवता धर्मकामार्तसिद्धौ विनियोग नमः ॐ षट्काराय नमः ॐ षट्कोणपीठमध्यस्थाय नमः ॐ षट्कृतिकासमाजस्थाय नमः ॐ षट्कोटितीर्थचर्याय नमः ॐ षट्चक्राय नमः ॐ षट् चक्रफणिभूषणाय नमः ॐक्रभेदनाय नमः ॐ षट्शक्तिपरिवारिताय नमः ॐ षट्शास्त्रार्थतत्त्वविधेतमः ॐ षडद्वयागतत्पराय नमः ॐ षट्ृदुकुसुमस्रग्विणे नमः ॐ षड्वर्गाय नमः ॐ षड्शराय नमः ॐ षड्गुणाय नमः ॐ षडाधाराय नमः ॐ षट्विधात्मने नमः ॐ षडाभायरहस्यज्ञाय नमः ॐ षडङ्गुलमहाह्रदाय नमः ॐ षडद्वाद्वान्तविध्वंसिने नमः त्मिकाय नमः ॐ षडाननपित्रे नमः ॐ षड्विधाकाराय नमः ॐाधार निवासकाय नमः ॐ षडाधारादिदैवताय नमः डूर्मिरहिताय नमः ॐूर्मिभयभेदकाय नमः ॐ्विकाररहिताय नमः ॐ षड्विंशकाय नमः ॐश्वर्यफलप्रदाय नमः ॐ षट् वैरिवर्गविध्वंसिने नमः ॐ षट्मूमये नमः ॐ षडद्वात्मने नमः ॐ षडङ्गाङ्गाय नमः ॐ षडङ्गाधिपतत्क्रमाय नमः ॐ षडङ्गात्मने नमः ॐ षण्ढाय नमः ॐ षडशरात्मने नमः ॐ ष्रन्थिभेतिने नमः ॐ षोटसस्वरमातृकाय नमः ॐ षोटसयोयुक्तदिव्याङ्गाय नमः ॐ षोडसाधारनिलयाय नमः ॐ षोडसात्मस्वरूपाय नमः ॐ षोडसाब्धकलावासाय नमः ॐ षोडसीकृतवज्राङ्गाय नमः ॐ षोडसेन्दुकलात्मकाय नमः ॐ षोडान्यासमयाय नमः ॐ षण्मुखाय नमः ॐ षण्मुखप्रीताय नमः ॐ षण्मुखजनक य नमः ॐ शंवामपादनूपुराय नमः ॐ षष्ठाय नमः ॐ षष्टिवालाय नमः ॐ षष्टिधाय नमः ॐ षष्टिभागाय नमः ॐ षष्टिजपरायणाय नमः ॐ षष्ठीनाथाय नमः ॐ षष्ठि नमः ॐ सकारस्य सरस्वती देवता वाग्सिद्धौ विनियोग नमः ॐ सकाररूपाय नमः ॐ सकलाय नमः ॐ सकलादाराय नमः ॐ सकलागमपारगाय नमः ॐ सकलतत्त्वात्मकाय नमः ॐ सकललोकैककर्त्रे नमः ॐ सकललोकैकसंहर्त्रे नमः ॐ सकललोकै ैकगुरवे नमः ॐ सकललोकैकसाक्षिणे नमः ॐ सकलनिगमगुह्याय नमः ॐ सकलवेदान्ततारकाय नमः ॐ सकललोकैकसंकराय नमः ॐ सकल निष्कलाय नमः ॐ सकलागममस्तकेषु सङ्गोषिदात्मविभवाय नमः ॐ सकलदुःखमूलहन्त्रे नमः ॐ सकलाभाय वेद्याय नमः ॐ सकलकल्याणदाय नमः ॐ सकलादसङ्गनिभर्हणाय नमः ॐ सकलभुवनभूतभाविताय नमः ॐ सकलस्तमथये नमः ॐ सकलमौनियेज्ञाय नमः ॐ सकलजनगेयाय नमः ॐ सकलसूरनुताय नमः ॐ सकललोकैकपालनाय नमः ॐ सकलभुवनबन्धवे नमः ॐ सकलाभायान्तसञ्चारिणे नमः ॐ सकलेश्वराय नमः ॐ सकलेष्टदाय नमः ॐ सकललेप्सितधाय त्रे नमः ॐ सकृत्प्रणदसंसारमहाघरतारकाय नमः ॐ सकृत्प्रपन्नदौर्भाग्य च छेदकाय नमः ॐ सकामारये नमः ॐ सक्ताय नमः ॐ सङ्कल्पाय नमः ॐ संकर्षणाय नमः ॐ सकुङ्कुमविलेपनाय नमः ॐ संकेतकुलपानिने नमः ॐ संकीर्णमन्दिरस्थाय नमः ॐ साकेतपुरवासिने नमः ॐ शिकत्याय नमः ॐ शुकराय नमः ॐ सुकबोलाय नमः ॐ सुकन्याय नमः ॐ सुकन्धराय नमः ॐ सुकन्धाय नमः ॐ सुकान्तये नमः ॐ सुकीर्तये नमः ॐ सुकेशाय नमः ॐ सुकुमाराय नमः ॐ सुकुमारमहापापहराय नमः ॐ सुकलितहालाहलाय नमः ॐ सुखविविनुताय नमः ॐ सुखोमलपादपद्माय नमः ॐ सुकृतराशये नमः ॐ शुकाविभ्यो नमः ॐ सूक्तानां पौरुषसूक्ताय नमः ॐ सैकताश्रयाय नमः ॐ शक्ये नमः ॐ संख्याय प्रभवे नमः ॐ संख्यासमापनाय नमः ॐ प्रधाय नमः ॐ सांख्याय नमः ॐ साख्ययोगाय नमः ॐ साख्याम् पुरुषात्मने नमः ॐ सांख्यस्य प्रभवे नमः ॐ सुखकराय नमः ॐ सुखप्रधाय नमः ॐ सुखदुःखविवर्जिताय नमः ॐ सुखसंस्थाय नमः ॐ सुखनिधये नमः ॐ सुखप्राप्त्यैकहेतवे नमः ॐ सुखभावाय नमः ॐ सुखधाराय नमः ॐ सुखासक्ताय नमः ॐ सुखासनाय नमः ॐ सुखाजाताय नमः ॐ सुखासनादिपञ्चमूर्तिप्रतिभादगोत्ववदनाय नमः ॐ सौख्यस्य प्रभवे नमः ॐ सौख्यप्रदाय नमः ॐ सगणाय नमः ॐ सकरतनुर्जन्मसुकृतप्लावितजाय नमः सगुणनिर्गुणाय नमः ॐ सगुणाय नमः ॐ स्मृगीद्रुभ्यो नमः ॐ सङ्ग्रहाय नमः ॐ सङ्ग्रामनिधिपूजिताय नमः ॐ स्वाय नमः ॐ सा गवेतचतुरङ्गोत्तहेशाक्लब्दात्मने नमः ॐ सुगुणाय नमः ॐ सुगुणाकराय नमः ॐ सुगन्धिदेहाय नमः ॐ सुगन्धमण्डलस्फुरत्पराजितामृतांशवे नमः ॐ सुगताय नमः ॐ सुगन्धाराय नमः ॐ सुगधीश्वराय नमः ॐ सुगन्धये नमः ॐ सुगुणार्णवाय नमः ॐ सुगण्डाय नमः ॐ सुगीतगायते नमः ॐ सुग्रीवाय नमः ॐ सौगतानां विज्ञानाय नमः ॐ शृगालरूपाय नमः ॐ सङ्गृणीसाय नमः ॐ शुघोराय नमः ॐ सुघोषाय नमः ॐ सच्चिदानन्दमूर्तये नमः ॐ सच्चिदानन्दसिन्धवे नमः ॐ सञ्चिदानन्दसम्पूर्णस्वरूपाय नमः ॐ सञ्चितपापविनाशनलिङ्गाय नमः ॐ सच्चिदपाभौततिमिरसंहरणाय नमः ॐ संचाराय नमः ॐ सुचरित्राय नमः ॐ सुचक्षुष्वेे नमः ॐ सुचित्राय नमः ॐ सुचारुचारुकेशाय नमः ॐ स्वच्छाय नमः ॐ स्वच्छन्दभैरवाय नमः ॐ स्वच्छन्दाय नमः ॐ स्वेषामन्त्रस्वरूपाय नमः ॐ सज्जनाय नमः ॐ सज्जनानुरागाय नमः ॐ सज्जकार्मुकहस्ताय नमः ॐ सज्जनपरिपालकाय नमः ॐ सज्जनाश्रयाय नमः ॐ सज्जनपूज्याय नमः ॐ सज्जनपोषणाय नमः ॐ स्वजनानुरागाय नमः ॐ स्वजनपालनाय नमः ॐ सुजङ्गाय नमः ॐ सुजातानन्दमहिम्ने नमः ॐ सुज्ञेयाय नमः ॐ सौजन्यनिलयाय नमः ॐ स्फटिकधवलाङ्गाय नमः ॐ स्फटिकचारुमूर्तये नमः ॐ स्फटिकमालालङ्कृतवक्षसे नमः ॐ स्फटिकजपमालाहस्ताय नमः ॐ सठापटलभूषिताय नमः ॐ स्थाणवे नमः ॐ स्थाणुरूपाय नमः ॐ स्त्रीणां गिरिजाय नमः ॐ स्त्रैनसौम्याय नमः सतां गतये नमः ॐ स्त्याय नमः ॐ स्त्यावरदाय नमः ॐ सततस्तुताय नमः ॐ सत्यज्ञानसुखाय नमः ॐ सत्यसम्भाषाय नमः ॐ सत्यवते नमः ॐ सत्यपराक्रमाय नमः ॐ सत्यधर्मपराक्रमाय नमः ॐ सत्यकीर्तये नमः ॐ सत्यसङ्कल्पाय नमः ॐ सत्यवेदसे नमः ॐ सत्यवाचे नमः ॐ सत्यव्रतार्थसन्तुष्टाय नमः ॐ सत्यरूपिणे नमः ॐ सत्यादिगुणसम्भवाय नमः ॐ सत्यधिये नमः ॐ सत्यपदाय नमः ॐ सत्यसन्धाय नमः सत्येशाय नमः ॐ सत्यचारित्रलक्षणाय नमः ॐ सत्यप्रत्ययाय नमः ॐ सत्यज्ञानप्रबोधिने नमः ॐ सत्यलोकनिवासिने नमः ॐ सत्याधिपञ्चमन्त्रात्मकमन्त्राध्वने नमः ॐ सत्यकीर्तिस्तम्भकृतागमाय नमः ॐ सत्यव्रतमहायोगिने नमः ॐ सत्यसंकराय नमः ॐ सत्यवित्तमाय नमः ॐ सत्यवाक्याय नमः ॐ सत्यचित्स्वभावाय नमः ॐ सत्यज्ञानसुखात्मकाय नमः ॐ सत्यज्ञानानन्दमयाय नमः ॐ सत्यधर्मिणे नमः ॐ सत्यप्रियाय नमः ॐ सत्यप्रतिज्ञाय नमः ॐ सत्यासत्याय नमः ॐ सत्यलिङ्गाय नमः ॐ सत्यवादिने नमः ॐ सत्यात्मने नमः ॐ सत्त्ववते नमः ॐ सत्त्वनां पतये नमः ॐ सत्त्वगुणोपेताय नमः ॐ सत्त्वविदे नमः ॐ सत्त्वविप्रियाय नमः ॐ सत्त्वनिष्ठाय नमः ॐ सत्त्वमूर्तये नमः ॐ सत्त्वेशाय नमः ॐ सत्त्वाय नमः ॐ सत्त्वस्ताय नमः ॐ सत्परायणाय नमः ॐ सत्कर्त्रे नमः ॐ सत्कथाप्रियाय नमः ॐ सत्कृताय नमः ॐ सत्कृतये नमः ॐ सत्कृपाकराय नमः ॐ सत्कीर्तये नमः ॐ सते नमः ॐ सत्त्वरूपाय नमः ॐ सत्सुन्दराय नमः ॐ सतीपतये नमः ॐ सुतुं गभं गजन् नमः ॐ सदाम्बवच्चेत भवक्लेशनिमित्तोरुभवच्चेत कृते नमः ॐ सतां सन्तापनोवारकाय नमः ॐ सतां पतये नमः ॐ शतां शद्रुग्नाय नमः ॐ सन्तृप्ताय नमः ॐ सत्तामात्रव्यवस्थिताय नमः ॐ सन्तोषजनकाय नमः ॐ सदा दौषितमुनिहृदयाय नमः ॐ सात्विकाय नमः ॐ सात्विकप्रियाय नमः ॐ स्वात्मसूक्ष्मतसोज्वलाय नमः ॐ सन्तोषदायकाय नमः ॐ सन्तोषितसुरवृताय नमः ॐ सिधत्युतये नमः ॐ सितभस्ममण्डिताय नमः ॐ सितां धरागप्रतिपन्नमानसाय नमः ॐ सिताङ्गाय नमः ॐ स्थिताय नमः ॐ स्थिति नमः ॐ स्थितीनां प्रभवे नमः ॐ स्मितमाधुर्यमतुरमुखण्डमण्डलमण्डिताय नमः ॐ स्थितभानुविभातनुविलासनाय नमः स्मितभाषिणे नमः ॐ स्मितवक्त्राय नमः ॐ स्पिताय नमः ॐ श्रुत्याय नमः ॐ स्तुतिप्रियाय नमः ॐ स्तुतिनित्याय नमः ॐ स्तुताय नमः ॐ स्तुत्याय नमः ॐ स्तुत्यर्थाय नमः ॐ स्तुतये नमः ॐ स्तुतिहर्षिताय नमः ॐ स्तुतोत्तमगुणाय नमः ॐ स्तुतितुष्टाय नमः ॐ स्तुतितोषाय नमः ॐ सुतन्तवे नमः ॐ सुतपसे नमः ॐ सुतीर्थाय नमः ॐ स्मृतिमते नमः ॐ स्मृतिरूपाय नमः ॐ स्मृत्यै नमः ॐ स्मृतीनां प्रभवे नमः ॐ सुताय नमः ॐ सूत्राय नमः ॐ सूत्राकाराय नमः ॐ सूत्रार्ताय नमः ूत्रभाष्यनिबन्धनाय नमः ॐ शूत्रप्रभोतकाय नमः ॐ सेतवे नमः ॐ सेतुभन्ते रामेश्वराय नमः ॐ सोत्कण्ठनीलकण्टाक्येपकण्टनटते नमः ॐ स्तोत्रप्रियाय नमः ॐ स्तोत्रय नमः ॐ स्तोत्राय नमः ॐ स्तोत्रपादाय नमः ॐ स्तोस्त्रोत्ररताय नमः ॐ स्तोत्रमयाय नमः ॐ स्तोत्रसन्तुष्टाय नमः ॐ स्तोत्रस्याय नमः ॐ स्वतन्त्राय नमः ॐ स्वतन्त्रशक्तिधाम्ने नमः ॐ स्वतन्त्रगतये नमः ॐ स्वतन्त्रशक्तिकवचाय नमः ॐ सन्दतजागृते नमः ॐ सन्ततमन्तस्मितसुन्दरवदनाय नमः ॐ श्वेतोनन्दाय नमः ॐ स्वतेजसाव्याप्तानभोवकाशाय नमः ॐ सदाशिवाय नमः ॐ सदाचराय नमः ॐ सदात्मने नमः ॐ सदाशिवेश्वरेशानविष्णुब्रह्मात्मने नमः ॐ सदा गतये नमः ॐ सदाशिवलिङ्गाय नमः ॐ सदानन्दाय नमः ॐ सदानन्दभाजे नमः ॐ सदाशुप्रकाशाय नमः सदा निर्विकाराय नमः ॐ सदा कर्त्रे नमः ॐ सदा शिवात्मकवदनाय नमः ॐ सदा शिवात्मकमूर्घ्ने नमः ॐ सदा शान्ताय नमः ॐ सदा शुद्धाय नमः ॐ सदाशामगानप्रियाय नमः ॐ सदा नमः ॐ सदाप्रियाय नमः ॐ सदा चरिताय नमः ॐ सदा नमः ॐ सदा नमः ॐ सदा नमः ॐ सदा नमः ॐ सदाद्वेषिणे नमः ॐ सदाद्गीर्णाय नमः ॐ सद्योजादातिपञ्चाग्निरूपाय नमः ॐ सदडृष्ट प्रधायिने नमः ॐ सदांशिने नमः ॐ सदानन्दनचरणाय नमः ॐ सदायोगिने नमः ॐ सत्त्वासनाशोभिताय नमः ॐ सदसदात्मकाय नमः ॐ सदयहृदयाय नमः ॐ सदयाय नमः ॐ सदयभावाय नमः ॐ सदसन्मयाय नमः ॐ सदसद्वृद्धिदायकाय नमः ॐ सदसत् नमः ॐ सदसद्वराय नमः ॐ सदसद्वचक्ताय नमः ॐ सदसस्पतये नमः ॐ सदससेव्याय नमः ॐ सन्दक्षिणपादकटितटाय नमः ॐ सदस्याय नमः ॐ सद्यो नमः ॐ सद्योजातात्मकपश्चिमवदनाय नमः ॐ सद्योजातात्मकमूलाधारकाय नमः ॐ सद्योगिने नमः ॐ सद्योजातात्मने जातात्मने नमः ॐ सत् ोधिजाताय नमः ॐ सत्यो जातरूपाय नमः ॐ सद्रोहदक्षसवनविगाधाय नमः ॐ सत्यो नमः ॐ सद्भूताय नमः ॐ सद्भिरसम्पूजिताय नमः ॐ सद्गुणाय नमः ॐ शान्त्रानन्तसन्तोहाय नमः ॐ स्कन्धाय नमः स्कन्दगुरवे नमः ॐ सुदर्शनाय नमः ॐ सुदेवाय नमः ॐ सुकृसे नमः ॐ सुदीप्ताय नमः ॐ सुन्दराय नमः ॐ सुन्दरताण्डवाय नमः ॐ सुन्दरभ्रुवे नमः ॐ सुन्दरविग्रहाय नमः ॐ सुन्दरचेष्टिताय नमः ॐ सुन्दरसायकाय नमः सुन्दरनाथाय नमः ॐ सुन्दरेश्वराय नमः ॐ सुधराय नमः ॐ सुध्याय नमः ॐ सौदामिनी समस्ताय सुवस्त्राय नमः ॐ सौन्दर्यवदे नमः ॐ सौन्दर्यसागरोद्भूतसङ्गसन्निभगन्तराय नमः ॐ सौन्दर्यवल्लीवल्लभाय नमः ॐ सद्र्मिणे नमः ॐ साधनाय नमः धवे नमः ॐ सध्याय नमः ॐ साध्यासाध्यप्रतायिने नमः ॐ साध्यासाध्यसमारध्याय नमः ॐ साधारणाय नमः ॐ साधुविदे नमः ॐ साध्यर्षये नमः ॐ स्वाधिष्ठनाय नमः ॐ स्वधाशक्तये नमः सन्दये नमः ॐ सन्धाद्रे नमः ॐ सन्ध्याप्रवर्णवाय नमः ॐ सन्ध्यादाण्डवसम्रम्भादूर्णदि विशधे नमः ॐ स्वधर्मभं कपीध िताय नमः ॐ स्वधर्मपरिपोषकाय नमः ॐ स्वदृताय नमः ॐ शुद्धये नमः ॐ सिद्धिलेसव्यकृतवरवेशाय नमः ॐ सिद्धयोगिने नमः ॐ सिद्धिप्रवर्तकाय नमः सिद्धिसाधकाय नमः ॐ सिद्धार्थाय नमः ॐ सिद्धाय नमः ॐ सिद्धार्चितपदाम्बुजाय नमः ॐ सिद्धभूतात्मकाय नमः ॐ सिद्धवृद्धारकवन्दिताय नमः ॐ सिद्धमार्गप्रवर्तकाय नमः ॐ सिद्धसुरासुरसेवितलिङ्गाय नमः ॐ सिद्धाश्रयाय नमः ॐ सिद्ध nayakaya namaham सिद्धिभूषणाय नमः ॐ सिद्धसन्दानुगीताय नमः ॐ सिद्धवन्तिस्तुताय नमः ॐ सिद्गुणैरिढ्याय नमः ॐ सिद्धगन्धर्वपूजिताय नमः ॐ सिद्धस्वरूपिणे नमः ॐ सिद्धसातकरूपाय नमः ॐ सिद्धसंघातगीताय नमः ॐ सिद्धिमधां नमः ॐ ेश्वराय नमः ॐ सिद्धानां कपिलाय नमः ॐ सिद्धान्तैर्निश्चिताय नमः ॐ सिद्धान्ताय नमः ॐ सिद्धानां पतये नमः ॐ सिद्धागमलवलाटिकाय नमः ॐ सिद्धौगानन्तरूपिणे नमः ॐ सिद्धलक्ष्मीमनोहराय नमः ॐ सिद्धसाध्यप्रपूजिताय नमः ॐ सिद्धसुरासुरेन्द्रनमिताय सुभानोन्मद मदन मदोन्मादमत्तालि कालीतालि सन्ताट्यमनोद्भुटमुरजरवाढम परोल्लासिताम् गाय नमः सिन्धवे नमः ॐ सिन्धुराजीनशेलाय नमः ॐ सुधन्वने नमः ॐ सुधाम्ने नमः ॐ सुधाकारां चितमस्तकाय नमः ॐ सुधाकस्ताय नमः ॐ सुधिये नमः ॐ सुधाकरजगच्च शुरधाङ्गाय नमः ॐ सुधामयूकरेकया विराजमानशेखराय नमः ॐ सुधीराय नमः ॐ सुधीन्द्राय नमः ॐ सनकसनन्दनन्दुदाङ्ग्रि विषप्रसूनाय नमः ॐ सनगादिमुनिध्येयाय नमः ॐ सनगातिवसिष्ठातिमुनिवन्द्याय नमः ॐ सनगादिसमायुक्तदक्षिणामूर्तये नमः ॐ सनत्कुमाराय नमः ॐ सनन्दनपरिवृताय नमः ॐ सनन्दननातनाय नमः ॐ सनातनाय नमः ॐ स्वनादाय नमः